गिरिव्रज पुरम् गतास्तदनु देव यूयम् प्रयो यया च समरोत्सवम् विजमिजेन तम् मागदम् अपूर्ण सुकृतम् पवनजेन सङ्ग्रामयन् निरीक्ष्य सह जिष्णुना त्वमपि राजयुध्वासितः